मुद्गलपुराणं खण्डं नयन् अध्यायम् 34 तर्टि फोर् गजाननचरितश्रवणपठनमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच आश्वलायनवंशस्तोब्राह्मणसुरुचिः पुरा नाम्ना स्वधर्मनिष्ठः सब्रह्मज्ञानपरोभवत् नानायोगक्रमे सकृतशमीदमपरायणः चचारयोगचर्यां तामन्ते सह जगो भवत तत्र स्वाधीनतां दृष्ट्वा विस्मिदः प्रययौ स्वगुरुं तं प्रणम्यादौ योगं पप्रच्छ उत्तमं सुरुचिरुवाच वदयोगम् महायोगिम् शान्तिदम् सर्वभावतः अस्माकम् त्वाम् पराकाष्ठा गुरुवंशधरप्रभुः आश्वलायन उवाच पैरेण योगो मह्यम् शान्तिप्रदः परः तम् तेकम् कथयिष्यामि भ्रमीभूतप्रदायकम् चित्तं पञ्चविधं त्यक्त्वा कं ब्रह्मेधिप्रबोधदः तेन शान्धिस्थो भविष्यसि न संशयः सरस्सं चित्तकं यस्मात् सम्भूतं जन्मयं मदम् अन्धे यत्र गदं तत्त्वं गजं जानीहि मानद तदेवाननकं यस्य तं भजस्व विधानदः गजाननं सुशान्धिस्थो भविष्यस्य अधुना मुने यवमुक्त्वा महाविप्र आश्वलायन आदराद तूष्णीं स्थितः सदं नत्वा ययौ स्वास्याश्रमं पुनः गजाननपरो भूत्वा भजत्तं नित्यमादराद गजाननचरित्रं सोपठन् मौद्गलसंस्थितम् तेन तुष्टो गणाधीशो ददौ योगं प्रशान्तिदं भक्ताय वै सुरुचये भक्तवाञ्चाप्रपूरकः तदस्तेन रहस्यं यच्चतुर्वेदसमुद्भवं ज्ञातं गजाननाख्येतत्संस्थितं ब्रह्मणोदितं गच्छन्ति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु योगरूपेण यस्तेषु स गच्छति ग उच्यते सर्वगं ब्रह्मसत्प्रोक्तम् सारगं सारगम्परं तदेव गच्छविज्ञेयो मुने नाम्नि गजानने जायन्ते विविधान्येव विश्वानि ब्रह्मकाणि च तस्मादतः जख्यातो द्वितीयात्मक एककः आदिमध्यान्तभावेषु यादृशं तादृशं भवेद् यजुषिब्रह्मसम्प्रोक्तं स्मृतो झः स गजाननि पञ्चचित्तमयं सर्वं नाश्यवन्नात्र संशयः नष्टं नकारकं विद्या समन्दा च तत्र वै नष्टभावेषु यत्तिष्ठे दासमन्दात्तदेव तद ब्रह्म साम्ना समाख्यादं स्थित आनो गजानने पञ्चचित्तमयं सर्वं नष्टं ज्ञातव्यमञ्जसा तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् अथर्वणसमाख्यादमहमात्मान संशयः अज्ञानेन विना शाक्यो न स्मृतः स गजानने ये दद्ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरिदं गजाननो महाविप्र चतुर्वेदात्मकस्मृतः एवं गजाननम् ज्ञात्वा भजत्तं सुरुचिः सदा अपठत्तस्य माहात्म्यम् तत्र चित्रं बभूवः कपोदो वृक्षसंस्थः कस्तत् शुश्राव चरित्रकं सरोगसंयुतः पापीरोगहीनो बभूवः अन्धेकजाननं गत्वा ब्रह्मीभूतो भवन्मुदा अज्ञानश्रवणेनैव फलं किं वदामि ते एवं नानाजनाखण्डं यद्गजानननामकं नाना श्रुत्वा पठित्वा भुक्त्वा भोगान् ब्रह्मप्रलेभिरे ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगजरिदे योगामृतार्थशास्त्रे यो दक्षमुद्गलसंवादे गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ओम्